श्री श्रीगणेशसूक्तम् श्रीगुरुभ्यो नमः हरिः ॐ आतु न इन्द्रुमन्तं चित्रं ग्राभं स गृभाय महाहस्ति दक्षिणेन विद्या हि तुविदेष्णं तुविमघं तुविमातृमवो ओभिः न हि त्वा आशूरदेवानमर्ता आशो दिशन्तं भीमं नगां गां वारयन्ते एतो इन्द्रम् एतवामेषा वस्व स्वराज्यम् न राधसा मर्धिषण्णः रस्तो ओषधुपं गाशी शस्त्रवः आनो ओ भरदक्षिणेनाभिसव्येन पमृष इन्द्रमाणो वसो निर्भा आकम् उपक्रमस्वाभरम् बृसताधिष्णो जना आनां अदा आशुष्टरस्य वेदः इन्द्रयवो नूते अस्ति वाजो विप्रे एभि सणि अस्माभिः सुतं सुनुहि सद्योजुवस्ते वाजा आस्मभ्यं विश्वचन्द्राः वसैश्च मक्षो जरन्ति गणाना आं त्वा गणपति गङ्गवामहे कविं कवीनामुपमस्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिश्चिदसादनम् निषु सीद गणपते गणेतु त्वामाहुर्विप्रथमम् कवीनाम् नारिते त्वत्क्रियते किं च नारे महामर्कम् मघवन् चित्रमर्श अभिख्यानो ॐ मघवन्ना यं मानान्त्यसखे ए बोधिवसुपते सखे रणं रणं कृधि रणकृसत्य सुष्मा भक्ते चिदाभजा राजे अस्मान् ॐ शान्तिः शान्तिः शान्तिः Harih Om